सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स विश्वतो हृत्वा अत्यतिष्ठद्दशाम् गुणम् पुरुषजे वेदकम् सर्वम् यद्धूतम् यच्च भव्यम् उतमृतत्वस्येषा नः विदण्डेनातिरोहति एता बाणस्य महिमा अतो ज्यायागश्च पोरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवी त्रिपादोर्ध्वौधये पुरुषः पादो अस्येता भवात्मनः ततो विश्वम् यत्क्रामते शासनानशने अभि तस्माद्विराडजायता विराजो अधिपोरुषः स जातो अत्यरिच्छता पश्चाभोमिमथो पुरः यत्पुरुषेण हविषा देवायज्ञमतम्बता सन्तो अस्यासीदाज्यम् ग्रीष्मजध्वः शरद्धविः सप्तास्यासन् परिधयः त्रिः सप्तसमिधः कृताः देवायद्यज्ञम् तन्बाणाः अबध्नन् पुरुषम् पशुम् तञ्जज्ञम् बर्हिषि पुरुषम् जातमघ्रतः तेन देवा अयजन्ता साध्या ऋषयश्च ये तस्माद्यात् सर्वभुतः सम्भृतम् वृषराज्यम् पशोगस्तागश्चक्रे वायव्याने सर्वहुतः ऋजः सा बालिजज्ञिरे छन्दा गुंसि जज्ञस्मात् यजोस्तस्मादजायता तस्मादश्वा अजायन्ता एकेजो भजादतः गावो हजज्ञिरेदस्मात् तस्मा अजा वयः यत्परुषं यददुः कथिथाव्यकल्पयन् मुखम् किमस्य कौ बाहो का भोरो पादामुच्येते ब्राह्मणो अस्य मुखमासीत् बाहो स्य यत् वैष्यः अध्यागम् शोद्र अजायत चन्द्रपामनसो जातः अजायता शोर्ज अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् श्रेष्माद्य समवर्तता पद्भ्याम्भोम्यद्विष श्रोत्रा तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णौ तमशस्तु पारे सर्वाणि रूपाणि नाबाणि कृत्वाभिवदनि यदास्ते धाता पुरस्ताद्यमुदा जहार चक्रप्रद्वान्प्रदिशश्चतस्रः तमेवम् विद्वानमृतगिह भवति नाय्य पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्तदेवाः तानि धर्माणि प्रथमान्यासन् ते हाकम् महिमानः स देवाः अर्धः सम्भूतपृथिवैरसाः च विश्वकर्मणः समवर्तताधि तस्य तत्पुरुषस्य विश्रमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णौ तमसः परस्तात् तमेवम् विद्वानमृतजिह भवति नान्यपन्था विद्यते गणाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य तेनाः परिजानन्ति योनिम् मलेशीनाम् पदमिच्छन्ति भेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः रुचाय ब्राह्मये रुचम् देवा अग्रे तदब्रुवन् यस्त्वैवम् तस्य देवा असन्वसे हेष्ठते लक्ष्मेश्च पत्न्यौ अहो पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् विष्टम् मनिषाणा अवम् मनिषाणा सर्वम् मनिषाणा सहस्रशेषम् देवम् विश्वाक्षम् विश्वसम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् विश्वतः परवान् नित्यम् विश्वम् नारायणगुम् हरिम् विश्वमे वे वेदम्बरुषस्तद्विश्वमुपजीवते पतिम् विश्वस्कात्मेश्वरगुम् साश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परागणम् नारायणपरो ज्योतिरात्मा नारायणः परः नारायणपरम् ब्रह्म तत्त्वम् नारायणः परः नारायणपरो ध्याताध्यानम् नारायणः परः यच्च किञ्चित् जगत् सर्वम् दृश्यते शोयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमम् ययम् कविगम् समुद्रे तम् विश्वसम्भुवम् पद्मघोषप्रदेशाम् हृदगन्धाप्यथोमुखम् अधो ज्वालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततकम् शिलाभिस्तुलम् बत्याघोषसन्निभम् तस्यान्ते सुम् सोक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वाजर्विश्वतो मुखः सोऽग्रभृद्विभजन् ष्खन्नाः रमजलः कवे निर्यगोध्वमधः साहि अस्म यस्तस्य सन्तता सन्तापयति तस्य मध्ये वह्निशिखा अणीयो व्यवस्थितः प्रेणतो यदमध्यस्थाद्यद्युल्लेखे बभास्वला नेवारशोकवर्तन्विताभास्वत्यनोपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः सा ब्रह्म शिवत्सहरिन्द्रोऽक्षर परम स्वराय ऋतगुम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् गोर्ध्वरेधम् विरोपाक्षम् विश्वलोपाय वैनभो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुप्रचोदयात् विष्णान्मकम् भेर्जाप्रवोचल्यः पार्थिबाल्यविमेव जागुंसि यो अस्तभाग्यदुत्तरगंसधस्तम् विचक्रबाणः त्रेदोरुघायो विष्णो रदा नमसि विष्णो म सि वैष्णात्रेष्ठ वैष्णा स्योदशी विष्णार्ध्वमसि वैष्णवमसि विष्णवे ॐ शान्तवेदशे सु नमामसो मम नाति यतो निदधाति वे स नः परिषदति दुर्गाणि विश्वानावे वसिन्धुम् धरितात्यग्निः तामग्निवर्णाम् तपसा ज्वलन्ते वैरोचने कर्मफलेषु जुष्टा दुर्गाम् देवे गुम् शरणमहं सुतरसितरसे नमः अग्ने त्वम् पार जानव्य अस्मान् स्वस्तिभिरति दुर्गाणि विस्मा वोश्च पृथ्वे बहुलान पूर्वे भवातोतनजागसंयोः विश्वानि नो दुर्गः जातवेदश्रन्थन्न नाबा दुरितादिवर्षे अग्ने अत्रिवन्मनसागृणानास्माकम् बाध्यपिता तरुणा ऋतनाजितगुम् सहमानमुग्रमग्निगुम् हुवेमरवात्सस्तात् स नः परिषदधिदुर्गाणि वेस्वाक्षामद्देवो अधिदुरितात्यग्निः प्रत्रोषिखमेढ्य अध्वरेषु सनाच्छोतानम् यश्च सत्से स्वाञ्च आग्नेतनुवम् विप्रजस्वास्मभ्यम् च सौभगवायजस्वा गोभिर्जुष्टमयजा निषिक्तम् तवे एन्द्रविष्णारनुसञ्चरे नागस्य पृष्ठमभि संवसानो वैष्णवेम् लोकजेहमाजयन्ताम् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्ग प्रचोदयात् हिरण्यवर्णाम्भरणेम् सुवर्णरजदस्रजाम् चन्द्राम् भिरण्मयेम् म आमह ताम् म आमहजातवेदो लक्ष्मेमनपगामिने यस्याम् हिरण्यम् विन्दे यङ्गामश्वम् पुरुषानहम् अश्वपो त्वाम् रथमध्याम् हस्तिनाथ श्रियम् देवेमुपह्जे श्रेर्मा देवे उत्युषताम् काम् सोऽस्मिताम् हिरण्यप्राकारा मात्राञ्ज्वलन्ते तृप्ताम् अर्पयन्ते पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्मजे चन्द्राम् प्रभासाम् यशसा ज्वलन्तेम् श्रीरल्लोके देवजुष्टामुदारा ताम् पद्मिम् शरणमहम्रमध्ये लक्ष्मेर्मेदः सताम् त्वाम् वृणे आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोधिल्वः तस्य फलानि तपसानुदन्तु माजान्तराजायाश्च भाह्यालक्ष्मी उपैतु माम् देवसह कीर्त्यश्च वनिनासः प्राजुर्भूतास्मि राक्षेऽस्मिन् कीर्त्यमध्यम् द्रदातु मे क्षुत्पासामलाम् भूतिमसमध्व्यम् च सर्वाण्यर्मृत मे गृहा गन्धद्वाराम् दुराधर्षान् नित्यपुष्टाम् करेषिणे ईश्वरेकम् सर्वभूतानाम् तामिह बह्जे श्रियाम् मनसः का भ कोतिम् वाचः पशूनाम् रूपमन्यः समगि श्रीश्रयरताञ्जसः वर्दमेल प्रजाभूतामहि सम्भव गमा सृजम् वासय मे कुले गृहे निज देवेम् मातरम् श्रिगम् वासगपे कुले आद्राम् पुष्करणे पुष्टिम् सुवर्णाम् क्षेमबालिने सोर्जाम् झिरण्मजेम् लक्ष्मीम् जातपे दो आद्राम् यःकरणे लष्टिम् पिङ्गलाम् मद्मबालिने िरण्मये लक्ष्मीम् जातवेदो मह आवह ताम् महावह जातवेदो लक्ष्मीमनवगामिने यस्याम् हिरण्यम् प्रभोतङ्गावोधास्योश्वारे बिन्देरम् पुरुषा नः महादेव्यै च विद्महे पत्नी च धीमहे धन्ना लक्ष्मी प्रचोदयात् श्रीर्वच्चः समायष्यमारो च भवानम् महीयते धान्यम् धनम् पशुम् अहमत्र लाभम् सदलम् मित्रः संवरुणः सन्न भवत्वर्जमा सन्न बृहस्पतिः सन्न विष्णुरुक्रमः नभो ब्रह्मणे त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म ृतम् वदिष्यामि सत्यम् वदिष्यामि तन्मा भवतु तद्भक्तार भवतु अवतु माम् अवतु भक्तारम् ओम् सन्नजेन्द्र बृहस्पतिः सन्ना विष्णरुक्रमः नभो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मा बाजिषम् ऋतपवाजिषम् सत्यपवाजिषम् तन्मा भावी दद्वक्तार भावीद आवेन्मा आयेतारम् ॐशान्तिः सह न भवतो सह नौ भुनक्तो सहभिर्जङ्करवा वहैन् द्विषामहे ॐ शान्तिशान्तिःशान्तिः नमो वाचे याचोदिता याचानुदिता तस्मै वाचे नमो नमो वाचे नमो वाचस्पतघेन वर्षभ्यो मन्त्रकृद्भ्यो मन्त्रपदेभ्यो मा मन्त्र परा दृर्वाहवृषेन्मन्त्रकृता मन्त्रपथीन् पराजामेश्वदेवे वाचमुद्यासगम् शिवामदस्था दुष्टाम् देवेभ्यः शर्म मेद्योः शर्म पृथिवे शर्म विश्वमिदम् ्रश्च सूदश्च धर्म ब्रह्म प्रजापति भूतम् वदिष्ये भुवनम् वदिष्ये तेजो वदिष्ये यशो वदिष्ये शवो वदिष्ये ब्रह्म वदिष्ये सत्यम् वदिष्ये तस्मा अहमिदमुपस्तरणमुपस्तृण उपस्तरणम् मे प्रजागै पशूराम् भोजासु हस्तरनमहम् प्रजागै पशूराम् भोजासम् प्राणापानो मृत्योर्माबाधम् प्राणापानो मामाहासष्टम् मधुमनुष्ये मधुजनिष्य मधुमक्ष्यामि मधुमदिष्यामि देवे। जगम् शुश्रोषेण्या मनुष्येभ्यस्तम् वा देवा अवन्तु शोभायै पितरो नु मदन्तो वो शान्ति निःशान्ति तच्छञ्जो राृणेमहे दातुम् यज्ञाया दातुम् यज्ञपतये स्तु नः स्वस्त्यर्वानुषेभ्यः ओञ्जिकातुभेषजम् सन्न अस्तुद्धिपदे सञ्चतुष्पदे ॐ शान्तिः शान्ति